मुद्गलपुराणं खण्डं 4, गजाननचरितम् अध्यायं 24, फोर् ज्येष्ठकृष्णचतुर्थीवर्णनम् श्रीगणेशाय नमः दशरथ उवाच माहात्म्यं तच्छ्रुतं मुख्यं मया वैशाखके परं सङ्कष्टिसम्भवं मुख्यं न तृप्तस्तदपि प्रभो अधो ज्येष्ठे चतुर्थी या सङ्कष्टीमुनिसत्तमा तस्याश्चरितमेवं मे वदपूर्णं समासदः वसिष्ठ उवाच निषधेषु महाभागो नलो नामाभवन्नृपः तेजस्वी शस्त्रसम्पन्नश्शास्त्रज्ञश्च बभूवः रूपवान् धनसम्पन्नश्चतुरङ्गबलान्विदः शस्त्रास्त्रैर्भूमिपालांश्च बभौ जित्वा महाबलान् सामन्दावशगायस्य करदा इदरे नृपः सार्वभौमो महाराज शशासपृथिवीमिमां धर्मेण दानशीलेन नित्यात्यागेन भूमिपः यश स पुरयामासत्रैलोक्यं स चराचरम् इन्द्रलोके विधेर्लोके कैलासे वैष्णवे पदे यस्य वार्तां प्रचकृस्ते धर्मशीलस्य देवभा त्रिलोकी गमने साधु त्रिलोकीगमने सकृतः साधुदर्शनतत्परः देवविप्रातिथिप्रेप्सुर्दीनान्धादीनपालयद दमयन्ती महाभागा प्रतिमा भुवि भार्या यस्य विशालाक्षी जगन्मोहकरी बभौ गुणावर्णयितुं नैव शक्यास्तस्य महात्मनः राजा कलिम जिग्ये पुण्यश्लोक वैराज कलीम जिग्ञे महायश कदाचिवनगेन भ्र कलिवशन सह जिदोद्युदेन राज्यम त्यक्त वन सलीना महा। मत्मिषेण महासती प्रेरितेन नलेन सौ त्यक्ता नृपवनान्तरे अर्धवस्त्रधरा सापि दमयन्तीपि दुर्गृहे नानादुःखसमायुक्ता जगामनलवर्जिता गुप्तरूपेण वर्षाणि त्रीणि क्रमणलालसः नलो बभ्रमतेजस्वी वने वस्त्रार्थधारकः धर्मशीलं स राजानं कलीना पीडितं परं दृष्ट्वा मुनिवरस्तत्र नारदः प्रजगामः तं दृष्ट्वा लज्जितो राजा प्रणनामकृताञ्जलिः लज्जितं तं समाज्ञाय उवाच्या। नारद स उवाच नारद उवाच मज्जा कुर राज गिरीदृशी सवधान भूवा शृणु मे परमं वचह तव राज्ये महाभाग्रत नष्ट महाद्भुद चदुर्धी, संज्ञम् तेन राज्यभ्रष्टोऽसि साम्प्रतं सर्वादौ तत्प्रकर्तव्यम् चतुर्वर्गफलप्रदं न कृतं चेन्महाराज कर्म सर्वं निरर्थकम् चतुःफलविहीनस्त्वम् भवस्यत्र न संशयः अधो वश्यकभावेन गुरुत्वं सर्वसिद्धितं यमुक्त्वा महायोगी नारदश्रावयन् नृपं माहात्म्यं व्रतमुख्यस्य चतुर्थ्या शांतिकारकं। तच्छ्रुत्वा विस्मितो राजा नलस्थं प्रत्युवाचः गणेश्वरस्य माहात्म्यं भजिष्यामि वदस्व नारद उवाच गणेश्वरस्य माहात्म्यं शान्ति योगफलप्रदं वक्तुं न शक्यते राज्यं तथापि शृणु मे वचः ब्रह्मविष्णुश्च शम्भुश्च शक्रिसूर्यो मरास्तथा शशादिनागमुख्यास्तं भजन्ति कुलदैवतम् अन्नप्राणादिकान्येव ब्रह्माणि नृपसत्तमभजन्ति तं विशेषेण कुलदेवं सनातनं वेदास्तं भजन्ति सुयोगदं महावाक्यानि राजेन्द्र भजन्ति ब्रह्मनायकं सर्वसिद्धिप्रदायस्य वामाङ्गे प्रकृतिः परा पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गे व्यवस्थिता स्वानन्दे वसतिर्यस्य सर्वपूजोऽयमुच्यते सर्वादिर्गणनाथश्च विप्रैः सों तेषु तिष्ठति गणास्समूहरूपाश्चान्दरबाह्याधियोगदः ते स्वाम् स्वामी गणेशोऽयं तं भजस्व विधानदः यवमुक्त्वा ददौ तस्मै नृपमन्त्रं षडक्षरं विधियुक्तं ततः सोऽन्तर्दधे गाणेशको मुनिः तद स नृपशार्दूलो ध्यात्वा कृजाननं मन्त्रं जजापभावेन स्वात्मानं निन्दयन् भृशं ततः कर्कोटकेनैव बभूवः विरूपस्थं ददौ वस्त्रं नागः तेन संहर्षितो भूप ऋतुपर्णं जगामः तेनैव मानितोऽत्यन्तं विरूपो गुणसंयुधः हि दुर्गृहे गदा नारीदमयन्ती महासदि तद्व्रतं मा तामपि नारदः नलेन दमयन्त्यात्तज्येष्ठमासे समागतम् प्रथमं तद्व्रदं मुख्यं सङ्गष्ठी संज्ञकं कृतं त्रीणि वर्षाणि पूर्णानि गुप्तरूपेण संस्थितः नलश्चतुर्थीजेनैव पुण्येन ज्ञानवानभूद तदश्वशुरमागम्य ऋतुपर्णेन संयुधः स्वात्मानं नागवस्त्रेण पूर्वरूपम् चकारः युदसो युधसोऽपिश्वशुरेण च सेनया ऋदुपर्णेन राजेन्द्रो गदस्वनगरे ततः भ्रात्रा सम्मानितोऽत्यन्तं चकारराज्यमुत्तमं विघ्नहीनस्वभावेन हृष्टपुष्टजनैर्वृतः तदो गदे काले बहु गालेज्येषिच्य सह सपत्को वने गत्वा भजत्तम गणनायकं, अंदे जगाम राजसौ स्वानंदे गणपं नृप त्रव बभूव भूत स बभूव नलनामकल जना भूमि तले तद कृष्ण कृष्णच मुख्यम चक्रत नृप अंदे क्रमेण सर्वे ब्रह्मभूदूं कृष्णे ज्येष्ठमा से महात्म्यं संगड़ी भव कथि ते नृप्रेष्ठ पुनस्व शृणुसीद ज्येष्ठीज सर्वसङ्कटकारकं मालवेन्त्य झझः कश्चित् पापकर्मा बभूवः वनं गत्वा द्विजादीन्स जघानद्रव्यलोलुभः दृष्ट्वा बलेन बुभुजे सदी परनरस्पर्शहीना तत्याज सा एवं नानाविधं पापं चकारजादिदूषणः न तच्छक्यं कथयितुं पापभोगभयान्मया ये कथा वनसंस्थश्च चाण्डालशस्त्रधारकः कञ्चित् पुरुषकं दृष्ट्वा धावत्स हननायतं पलायन जगाम जगामभयसङ्कुलः आहा कृत्वा पुरोदेशे स तदो निष्फलोऽभवत् यदस्मिन्नन्तरे तत्र पुरुषा शस्त्रधारकाः राज्ञः समागतास्तत्र श्रुत्वा कोलाहलम् तयोः ते धृत्वा ताडयामासुः पुनस्तम् राजसेवकाः बध्वा राज्ञे ददुर्दुष्टं राजा चिक्षेपबन्धने तत्रैव दैवयोगेन प्राप्ता ज्येष्ठचतुर्भिका कृता तेनान्नहीनोऽयं बभूवे बन्धनाकुलः चन्द्रोदये दयायुक्तै रक्षकैस्तैर्महामदे अन्नं दत्तं तथा भुक्तं तेन दुष्टेन तत्क्षणाद् राजाज्ञया च दं दुष्टं पञ्चम्यां जघ्नुरादराद स मृदोऽन्द्यजस्तत्र ब्रह्मभूतो बभूवः एवं नानाजनाराजन्व्रतपुण्यप्रभावदः भुक्त्वा भोगांश्च ते सर्वे ब्रह्मभूता बभूविरे अपार माहात्म्ययुतं व्रतं वक्तुं न शक्यते तथापि कथितं भूप माहात्म्यं सङ्कटीभवं इदं ज्येष्ठचतुर्ध्यास्तु कृष्णायासं शृणोति यः माहात्म्यं वा पठति स लभते स्वेप्सितं ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननजरिदे ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः ओ